श्रीहर्ये नमः अत दशमोऽध्यायः राजोवाच कथ्यतां भगवन्नेतत्तयोशापस्य कारणं यद्धद्विहर्हितं कर्म येन वा ते श्रीसुक उवाच रुद्रस्यानुचरौ भूत्वा क्षुदृप्तौ धनधात्मजौ कैलाशो रम्ये मन्धाकिन्यां मधोत्कटौ वारुणी मधिरां पीत्वा मधा गूर्णितलोचनौ श्रीजनैरनुगायत्पिशेरथुः पुष्पिते वने अन्तः प्रविश्य गङ्गायामम्बोजवनराजिने चिक्रीडदुर्युपति बेर्गचाविवकरेणुभिः यद्रुश्च याच दे पर्षिर्भगवतंत्र गौरव अपश्यन्ना रतो देवौ शीबाणौ समबुध्यत तं दृष्ट्वा व्रीडिता देव्यो विवस्त्राशापशङ्किताः वायांसि पर्यधुशीघ्रं विवस्त्रौ नैव गुह्यकौ तौ दृष्ट्वा मदिरामत्वौ श्री श्रीमधान्धौ सुरात्मजौ अयो अनुग्रहार्ताय शापं दास्यन्निधं जगौ नारदौ वाच नह्यन्यो जुषतो जोष्यान् बुद्धिभ्रंशो रजो गुणः श्रीमदाधाभिजात्यादेर्यत्त श्रीद्यूतमासवः हन्यन्ते पसवो यत्र निर्निर्दयै रजितात्मभिः मन्यमानैरिमं देहम् अजरामृत्युनश्वरं देवसङ्गितमप्यन्ते कृटभिभस्मसङ्गीतं भूतदृक्ततृक्के स्वार्थं किं वेतनिरयो यदहा देह किमन्नधातुस्वं निषेक्तुर्माधुरेव च मातुः पितुर्वा बलि न क्रेतुरग्ने सुनोऽपि एवं साधारणं देहमव्यक्तप्रभवाप्ययं को वि आत्म उपम्येन भूतानि धरित्रपरमीक्षते यथा कण्टविद्धाङ्गो जन्तोर्नेच्छति तां व्यथां जीवसाम्यं गतो लिङ्गै न तथा धरित्रो निरहं स्तम्भो मुक्तः सर्वमधैर्यहम् कृच्छरं यद् दृश्याप्नोति तद्धितस्य परं तपः नित्यं सुक्षामदेहस्य दरिद्रस्य अन्नकाङ्क्षिणः इन्द्रियाण्यनुष्यन्ते हिंसापि विनिवर्तते दरिद्रस्यैव युज्यन्ते साधवस्समदर्शिनः सद्भिक्षिनोति तं तर्शन् तत आरात्मि शुध्यति साधूनां समचित्तानां मुगुन्तच्चरणैषिणाम् उपेक्षै किं धनस्तम्भै असद्विरधाश्रयै हे तदघं वारुण्या श्रीमधान्तयोः तमो मदं हरिष्यामि स्त्रैण्यो राजितात्मनोः यदि मौ लोकपालस्य पुत्रौ भूत्वा तमः प्लुतौ न विवाससमात्मानं विजानीत सुधर्मधौ अतो हर्तस्तावरतां श्यातां नैवं यथाः पुनः तत्रापि मदनुग्रहात् वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यसरश्च ते वृत्ते स्वर्लोकतां भूयो लब्धभक्तिभविष्यतः श्रीशुक उवाच एव मुक्त्वा स देवर्षिर्गतो नारायणाश्रमं नळकूपरमणिग्रीवा वासतुर्यमलार्जुनौ ऋषेर्भागवतमुख्यस्य सत्यं कर्तुं वचो जगामसनकैस्तत्र यत्रास्तां यमळार्जुनो देवर्षिर्मे प्रियतमो यदि मौ धनधात्मजौ तत्तथा साधयिष्यामि यद्गीतं तन्महात्मना इत्यन्तरेणोऽर्जुनयो कृष्णस्तु यमयोर्ययौ आत्मनिर्वेशमात्रेण तिर्यग्गतम्बुलुकलं बालेन निष्कर्षयतान्वगुलुकलं तत् दामोदरेण तरसोत्कलिदाङ्घ्रिबन्धो निष्पेदतो परमविक्रमितातिवेपस्कन्ध प्रवालविडपौ कृतचण्डसब्धौ तत्र श्रिया परमया कगुपस्फुरन्तौ सिद्धावुपेत्य गुजयोरिव जातवेधाः कृष्णं प्रणम्य शिरसा अखिललोकनाथं बद्धाञ्जलिविरजसा विधमूचतुस्म कृष्णकृष्णमहायोगिन्स्त्वमाद्यः पुरुषः परः व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः त्वमेक सर्वभूतानां देहास्वात्मेन्द्रियेश्वरः त्वमेव कालो भगवान् विष्णुरव्यय ईश्वरः त्वं महान् प्रकृतिसूक्ष्मा रजः त्वमेव पुरुषोऽध्यक्ष सर्वक्षेत्रविकारवेत् गृह्यमाणैस्त्वमग्राह्यो विकारैर्प्राकृतैर्गुणैः कोन् विहार्हति विज्ञातुं प्राक्सिद्धं गुणसंवृतः तस्मै तुभ्यं भगवते वासुदेवाय वेदसे आत्मत्योदगुणैश्चन्दमहिम्ने ब्रह्मणे नमः यस्यावताराज्ञायन्ते शरीरेष्वशरीरिणः तैस्तैरतुल्यातिशयैर्वीर्यैर्देहिष्वसङ्घतैः स भवान् सर्वलोकस्य भवाय विभवाय च अवतीर्णोऽसभाग्येन साम्प्रतं पदिराशि सां नमः परमकल्याण नमः परममङ्गल वासुदेवाय शान्ताय यदूनां पतये नमः अनुजानीहि नौ भूमंस्तवानुचरकिङ्करो दर्शनं नौ भगवत रुषोरासीतनुग्रहात् वाणीगुणानुकथने श्रवणौ कथायां हस्तौ च सुमनस्तव मनस्तवर्नः स्मृत्यां शिरस्तव निवास जगत्प्रणामे दृष्टिस्ततां दर्शने स्तो भवत्तनूनां श्रीसुख उवाच इत्तम सङ्कीर्तितस्ताभ्यां भगवान् गोकुलेश्वरः धाम्ना च प्रहसन्नाकगुह्यकौ ज्ञातं मम पुरैवेतदृषिणा करुणात्मना यश्रीमधान्धयोर्वाग्भैर्विभ्रंशोऽनुग्रहकृतः साधूनां समचित्तानां सुतरां मद्गृहात्मनां दर्शनात्मो भवेद्भन्त पुंसोक्ष्णोः सतु विर्यत तत्कच्छतं मत्परमौ नळनाभरसाधनं सञ्जातो मयि भावो वामीप्सितपरमो भव श्रीसुख उवाच इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः भक्तो बुलुकलं मामन्त्र्य जग्मधुर्दिशमुत्तर इति श्रीमद्भागवते महापुराणे दशमस्कन्ते पूर्वार्थे नारथशापो नाम दसमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनाथमगराज की जय